नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र एकं श्लोकं श्रावयामि सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य सृष्टारम् अनेकरूपं विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवम् उच्यते सर्वपाशैः इति उपनिषत्तः एकः श्लोकः तर्हि श्लोकस्य अर्थः कः इति चेत् अयं यः परमपुरुषः वर्तते सः अस्मिन् जगति भिन्नभून् भिन्नभिन्नरूपेण तेन प्रकटितं वर्तते भिन्नवर्णैः भिन्नभिन्नवर्णैः भिन्नभिन्न नामानि भिन्नभिन्नरूपाणि इति एवं रू रूपेण सः एव अस्मिन् जगति प्रकटितः वर्तते सः एव आविर्भूतः वर्तते परन्तु केषुचित् स्थलेषु सः Uh, सुलरूपेण प्रकटितः वर्तते केषुचित् स्थलेषु सूक्ष्मभूतः वर्तते केषुचित् स्थलेषु सः अतिसूक्ष्मरूपेणापि वर्तते तर्हि सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये अत्र अस्मिन् जगति तत्र परमपुरुषः यः एकः वर्तते सः अत्र तेन अनेकरूपं स्वीकृतमस्ति अनेकरूपं स्वीकृतमस्ति अतः एव अस्मिन् जगति भिन्नभिन्नजीवाः भिन्नभिन्नपशवाः भिन्नभिन्नरूपेण तस्य एव आविर्भावः जातः भिन्नभिन्नभावैः सह एव आविर्भूतः वर्तते तर्हि अत्र अत्र अस्मिन् जगति ये ये ये सत्ताः याः सत्ताः वर्तन्ते तेषु अत्र तत्र किं काचन सत्ता अत्र इन्द्रियैः ग्राह्या वर्तते अपि च अन्ये अन्याः तु इन्द्रियैः अग्राह्याः वर्तन्ते तर्हि अन्याः तु अग्राह्यः वर्तन्ते इत्येवं रूपेण तस्य अस्मिन् जगति आविर्भूतः वर्तते सः तु एकः एव वर्तते एकः एव वर्तते सः एव विश्वस्य स्रष्टा वर्तते तेन एव जगतः निर्माणं परमपुरुषेण एव कृतं प्रकृत्याः सहायेन तेनैव कृतं जगतः सृष्टिः तर्हि अत्र अस्मिन् जगति ये इत्युक्ते ये जीवाः ये पशवः ये मानवाः ये तु पञ्चभूतैः निर्मिताः तेषां तु अत्र इन्द्रियैः तेषां ग्रहणं भवति यतोहि तेषां तु तत्र क्षितितत्वेन जलतत्वेन वायुतत्वेन अग्नितत्त्वेन आकाशतत्वेन तेषां निर्माणम् अस्ति इति कृत्वा तेषां भौतिकशरीरं वर्तते इति कृत्वा तेषां Uh, ग्रहणम् इन्द्रियेण ग्रहणं भवति परन्तु ये दानवाः सन्ति ते तेषां निर्माणं तु चतुर् चतुर्णां तेषां निर्माणं चतुर्णां भूतानां चतुर्भिः भूतैः तेषां निर्माणं जातं तेषु तत्र कृतितत्वं न वर्तते तेषु केवलं जलतत्वं आकाशतत्वं वायुतत्वम् अग्नितत्वमेव वर्तते दानवेषु अपि च ये देवताः याः देवताः सन्ति तासु तत्र केवलं भूतत्रयमेव वर्तते तत्र किम् अग्नितत्वं वायुतत्वम् आकाशतत्वं देवतासु स्थितितत्वं नास्ति अपि च जलतत्त्वमपि नास्ति इति कृत्वा तेषां यद् शरीरं वर्तते तत् शरीरं तु न दृश्यते न तत्र इन्द्रैः तेषां शरीरं ग्राह्यं नास्ति तेषां यद् प्रकाशमानं शरीरं वर्तते तदेव तद्वयं वदामः देवयोनयः इति वयं वदामः देवयोनयः योनयः इति यतोहि तेषां तु पञ्च पञ्चभूतेषु भूतत्रयेण भूतत तेषां निर्माणं जातमस्ति तेषां शरीरं न दृश्यते इति एवं रूपेण शरीरं किं भगिनि किं भूतानि निर्मिताः सरीरं दृश्यते तद् तेषां शरीरमपि प्रायेण न दृश्यते यत् चतुर्भू चतुर्भिः भूतैः तेषां निर्माणं जातं तेषामपि शरीरं न दृश्यते देवयोनिनामपि शरीरं न दृश्यते परमपुरुषः यः एक एकः वर्तते सः एव एकः सः एकः वर्तते तस्य ज्ञानमपि एकमेव वर्तते यथा मया पूर्वम् एकवारं बोधितम् आसीत् यत् परमपुरुषस्य ज्ञानम् अस्ति द इति तर्हि तत्र द इत्यस्य अर्थः भिन्नभिन्नरूपेण गृहीतम् आसीत् तत्र यः देवताः सन्ति तैः तु द इत्युक्ते तत्र दमनम् इत्युक्त तैः तैः दमनम् इति उक्तं तदनन्तरं दमनम् इत्युक्ते निग्रहः इत्यर्थः अनन्तरं ये मानवाः सन्ति ते ते द इत्युक्ते दयां कुरु इति अर्थं स्वीकृतवन्तः अपि च सन्ति ते तु द इत्युक्ते दानं कुरु इति अर्थं स्वीकृतवन्तः इति मया पूर्वम् उक्त उक्तमासीत् परमपुरुषः एकम् एकं ज्ञानं नित्यमनन्तं नित्यं नित्यम् आदि अन्तशून्यम् इति मया पूर्वं चर्चितमासीत् इदानीम् अत्र अस्मिन् श्लोके यः परमपुरुषः यः अस्ति यः एकः अस्ति यः विश्वस्य स्रष्टा अस्ति तस्य अस्मिन् जगति अनेकरूपं वर्तते तत्र तेषु रूपेषु तत्र केचन तत्र इन्द्रैः तत्र कानिचन रूपाणि इन्द्रियैः ग्राह्याणि अन्यानि तु अग्राह्याणि इत्युक्ते ते सूक्ष्माः अथवा अतिसूक्ष्माः सूक्ष्माः इत्युक्ते वयं जानीमः यत्र तन्मात्राणि न सन्ति तत्र सूक्ष्मः इति वयं वदामः यत्र अतिसूक्ष्मः इत्युक्ते सूक्ष्मः इत्युक्ते इन्द्रियैः अग्राह्यः यः यः अस्ति यः इन्द्रियैः अग्राह्यः अस्ति सः सूक्ष्मः अस्ति इत्युक्ते यत्र तन्मात्राणि न सन्ति अतिसूक्ष्मः इत्युक्ते तादृशसत्ता यस्य यस्याः अवगमनं मनसापि न कर्तुं शक्यते यस्याः ग्रहणं मनसापि न कर्तुं शक्यते तादृशसत्ता एव अतिसूक्ष्मसत्ता इति वक्तुं शक्नुमः एकः एव परमपुरुषः तस्यैव कदाचित् तस्य दर्शनं भवति कदाचित् तस्य दर्शनं न भवति इत्येवं रूपेण भिन्नभिन्नरूपेण तस्य एव अस्मिन् जगति आविर्भूतः अस्ति अत्र जगतः अपि बाह्यः किमपि भवेत् तत्रापि परमपुरुषस्य नियन्त्रणं वर्तते इत्युक्ते यद्वयं पश्यामः तदेव जगत् इति नास्ति यद्वयं द्रष्टुं न शक्नुमः तत्रापि किमपि भवितुम् तत्रापि परमपुरुषस्य नियन्त्रणं वर्तते तर्हि सः न तर, केवलं सूक्ष्मरूपेण अतिसूक्ष्मरूपेण अथवा अपि च स्थूलरूपेण अपि सः प्रकटयति तर्हि तस्य तस्य आविर्भावः न केवलं अत्र अस्मिन् जगति अस्ति तत्र ब जगतः बहिः अपि तस्य नियन्त्रणं शक्यते अस्माभिः न ज्ञायते तर्हि यदा वयं तं परमपुरुषं जानीमः तस्य सम्पर्के तस्य सम्पर्के यदा वयम् आगच्छामः तदानीं भवबन्धनात् मुक्तिः भवति तदानीं सर्वपाशैः वयं मुक्ताः भवामः यदा तस्य सम्पर्के आगच्छामः तत्तु कथं भवति इति चेत् साधनाद्वारा एव भवति यदा साधनायां वयं लग्नाः भवामः भवा तदानीं तस्य सम्पर्के आगच्छामः तदानीं तत्र किं भवति इति चेत् तत्र भवबन्धनात् सर्वपाशैः वयं मुक्ताः भवामः पाशबद्धः यः अस्ति सः भवेत् जीवः पाशमुक्तः यः अस्ति सः भवति शिवः इत्युक्ते एकः एव जीवः सः शिवः अस्ति परन्तु सः यदा बन्धने अस्ति प्रकृतेः बन्धने गुणैः बन्धः गुणैः बद्धः भवति तदानीं सः जीवः सः जीवः इति व्यवहरति जीवरूपेण व्यवहरति परन्तु सः एव यदा पाशैः विमुक्तः वर्तते तदानीं सः एव भवति शिवः यः शिवः अस्ति शिव शिवः शक्त्यात्मकः इति वयं शिवशक्त्यात्मकं ब्रह्म इति वयं जानीमः यदा तत्र शक्तिद्वारा बन्धने जीवः भवति तदानीं सः पाशः तत्र षड्रिपवः अष्ट पाशाः सन्ति तैः सह बद्धः भवति यदा तत्र एका रज्जु रज्जुः वर्तते यदा अस्माकं शरीरं तत्र रज्ज्वा तत्र शरीरं बद् बद्धम् अस्ति तदानीं किं भवति इति चेत् वयं किमपि न कर्तुं शक्नुमः तत्रैव वयं स्मः परन्तु यदा अस्माकं शरीरं बृहद् बृहद् भवति तदानीं तत्र किं भवति तत्र रज्जुः रज्जुः या या रज्जुः अस्ति तस्य तस्य किं कर्तनं जायते रज्ज् रज्जोः कर्तनं जायते यदा शरीरं बृहत् भवति एवं रूपेण यदा वयं साधनायां लीनाः भवामः तदानीं किं भवति इति चेत् अत्र ये पाषाः सन्ति प्रकृतेः बन्धनानि यानि सन्ति अस्माकं मनः वर्धते साधना साधनां यदा कुर्मः तदानीं मनः वर्धते मनः यदा वर्धते तदानीं किं भवति इति चेत् यदा किं मनः शनैः शनैः शनैः वर्धते तदानीं किं भवति सर्वपाशाः ये पाषाः सन्ति पाशाः तेषां कर्तनं जायते तेषां भग्नः ते भग्नाः भवन्ति पाशाः भग्नाः भवन्ति तदानीं किं भवति इति चेत् जीवः मुक्तः भवति जीवः यदा मुक्तः भवति तदानीं तत्र किं भवति सः एव जीवः शिवः भवति तर्हि अत्र अस्य पाठस्य अर्थः कः इति चेत् मनुष्यः कथं परमपुरुषः भवितुमर्हति वयं कथं परमपुरुषः भवामः इति चेत् तत्तु साधनाद्वारा यदा साधनाद्वारा मनः वर्धते इतोपि सूक्ष्मः सूक्ष्मः सूक्ष्मः सूक्ष्मः भवति मनः सूक्ष्मं भवति तदानीं किं भवति इति चेत् तदानीं पाषाः भग्नाः भवन्ति वयं विमुक्ताः भवामः तदानीं मोक्षः इति वयं वक्तुं शक्नुमः तत्र इत्युक्ते यावत्पर्यन्तम् अस्माकम् अवगमनं न भवति अहं बन्धने अस्मि इति अवगमनं न भवति तावत्पर्यन्तं किं थिंग भवामः तत्र संसारे एव व्यवहरामः संसारे व्यवहरामः भौ भौतिक लोके भौतिकवस्तुषु लौकिकवस्तुषु अस्माकम् आसक्तिः भवति तदानीं तदेव प्राप्तुं वयं धावामः परन्तु यदा वयम् अस्माकम् अन्तःचक्षुः उद्घाटितः उद्घाटितः भवति तदानीं किं भवति इति चेत् वयं, वयं तत्र आध्यात्मिकजीवने वयं प्रवेशं प्राप्नुमः तदानीं मुक्ति आकाङ्क्षा सद्गुरुप्राप्तिः भवति सद्गुरुप्राप्तिः यदा भवति तदानीं मार्गः स्पष्टः भवति मम अग्रगतिः कथं भवति इति मार्गः मम अग्रगतिः कथं भवेत् इत्यस्मिन् विषये तत्र यः मार्गः अस्ति सः मार्गः स्पष्टः भवति तदानीं तत्र वयं यदा दृढसङ्कल्पं कुर्मः तदानीम् अग्रगतिः अवश्यं निश्चयेन भवति तत्र संशयः एव नास्ति निश्चयेन भवति अस्माकं कथं मनः वर्धितं वर्तते इति वयं स्वयं तत्र साक्षात्कारं कर्तुं शक्नुमः तत्र अन्यप्रमाणस्य आवश्यकता नास्ति अन्यप्रमाणस्य आवश्यकता नास्ति इत्युक्ते वयं वदामः एवं भिन्नभिन्नरीत्या वदामः एतत् कुर्मः चेत् मोक्षः लभ्यते अन्येन केनचित् पुरुषेण मोक्षः प्राप्तः वा इति वयं कथं जानीमः तेन प्राप्तं वा न वा इति बहिः वयं पश्यामः चेत् अस्माभिः ज्ञायते तेन मोक्षं प्राप्तं न वा इति मोक्षः प्राप्तः वा न वा परन्तु यदा वयम् अत्र य यद् योगनश्च जीवनमिति यदस्ति तद्वयं तस्य पालनं कुर्मः तत्र नित्यप्रियाः याः तासां पालनं कुर्मः तदानीं तु अस्माकम् अग्रगतिः निश्चयेन भवति तस्य साक्षी साक्षी कः अस्ति इति चेत् वयं स्वयं वयं स्वयं साक्षिणः भवामः तस्य साक्षिणः भवामः कथम् इति चेत् अस्माकं मम मनः वर्धितम् इति वयं स्वयं साक्षात्कारं कर्तुं शक्नुमः अन्यप्रमाणस्य आवश्यकता नास्ति वयं स्वयं द्रष्टुं शक्नुमः इति कृत्वा एव तत्र वयं किं वदामः आदिमदिनात् अस्माकं वर्गेषु आदिमदिनात् वयं किं वदामः इति चेत् अत्र योगः इत्युक्ते तत्र 99% नैन् प्राक्टिस, 99% प्राक्टिस् नैन्टि व्यवहारः व्यवहारः एव अस्ति तत्र जीवने आनयनम् अत् अपि च केवलं एकप्रतिशतम् एव तत्र सिद्धान्तः वर्तते सिद्धान्तस्य अवगमनं तदपि व्यवहारे आनयनार्थम् एव तर्हि अत्र किम् अस्माभिः किं करणीयम् इति चेत् तत्र यद् यद्यद् अस्माभिः चर्चितं सात्विक आहारः उपवासः आसनानि साधना व्यापक् सो व्यापक् सोच् एतत् सर्वं अस्माभिः चर्चितं तस्य पालनम् अति आवश्यकमस्ति किमर्थं यदा यदा अस्माकं मनः तामसिकं भवति अथवा राजसिकं भवति तदानीं तत्र साधनायाम् अस्माकं मनः न भवति तत्र मनः मनः मनसि तत्र आसक्तिः न भवति साधनायां तर्हि साधना इत्युक्ते वयं जानीमः तत्र कश्चन चेष्टा अपेक्षिता अस्ति यथा अन्य अन्यकार्याणि सन्ति अन्यकार्याणि क्लिष्टकरकार्याणि सन्ति तद् कर्तुं वयम् उत्सुकाः चेत् तदानीं किं कुर्मः तत्र श्रमः आवश्यकः अस्ति एवमेव एव साधनायामपि श्रमः आवश्यकः अस्ति यदा श्रमः भवति तदानीं क भवति इति चेत् फलम् अवश्यं लभ्यते तत्र वयं स्वयं प्रमाणं फलम् अवश्यं लभ्यते तदर्थं किं करणीयम् इति चेत् एतत् सर्वं यत् चर्चितम् सात्विक आहारः उपवासः एतत् सर्वं तत्सर्वम् इदानीमेव अस्माभिः करणीयम् इत्युक्ते करोमि परश्वः करोमि अथवा एकवर्षानन्तरं करोमि इति तथा न करणीयम् अग्रे अस्माकं जीवनं कथं भवति अग्रे अग्रिमदिने अहं जीवामि वा न वा इत्यपि न जानामि एवमस्ति चेत् तत्र यद् करणीयं तद् अद्य करणीयं शुभस्य शीघ्रं किमर्थं यद् शुभकार्यम् अस्ति तद् तद् किम् अनन्तरं करोमि इति वयं किमर्थं पोस्टोन् कुर्मः तत्र यत् करणीयं तत् करणीयमेव खलु तत्र किमर्थं वयं वदामः न अद्य न करोमि श्वः करोमि परश्वः करोमि दिन करोमि वर्षानन्तरं करोमि इति किमर्थं वदामः एवं न करणीयं खलु शुभशुभकार्यं शीघ्रं करणीयम् यतोहि तत्र शुभमुहूर्तः गच्छति इदानीम् इदानीम् उचितः समयः अस्ति इति इत्युक्ते श्वः एव उचितः समयः इति नास्ति इदानीम् इदानीमपि उचितः समयः अस्ति यत् एतत् कर्तुं यतोहि तत्र प्रतिक्षणम् उचितमेव इत्युक्ते अद् अद्य एव तत्र मुहूर्तः बहु सम्यक् अस्ति मुहूर्तः सम्यक् श्वः मुहूर्तः सम्यक् भवति अद्य मुहूर्तः सम्यक् नास्ति इति नास्ति इदानीमपि सम्यक् इदानीमपि सम्यक् अस्ति बहुकालानन्तरम् अस्माकम् उचितः मार्गः लब्धः अग्रगतिं प्राप्तुं तर्हि किमर्थं समयस्य व्ययः अस्माभिः करणीयः इदानीमेव कर्तुं शक्यते इदानीमेव वयं कुर्मः चेत् वयं स्वयं द्रष्टुं शक्नुमः प्रतिदिनं यदा साधनां कुर्मः तदनन्तरम् अस्माकं मनः इतोपि किं तत्र बहु लैट् भवति मनः लैट् भवति अपि च तत्र अस्माकम् अग्रगतिः गतिः जाता इति वयं स्वयम् अवगन्तुं शक्नुमः यतोहि अस्माकं व्यवहारः परिवर्तते अस्माकम् इच्छाः द्वेषाः एतत् सर्वं इच्छाः याः सन्ति तत्सर्वं परिवर्तते यत्र द्वेषः आसीत् तदानीं द्वेषः नास्ति इदानीं प्रीतिः जायते प्रीतिः अस्ति इत्युक्ते सर्वेषु भूतेषु अस्माकं समत्वम् अपि वर्धितं भवति तत् ता, तादृश अनुभवः अन्यत्र न लभ्यते इत्युक्ते इत्युक्ते वयं बहुवारं पठामः ज्ञानं अहं ब्रह्मास्मि अहं ब्रह्मास्मि इति बहुवारं पठामः तथापि अस्माकं मनः वसुधैवकुटुम्बकम् इति वाक्यरूपेण वदामः परन्तु अस्माकं हृदि तादृशभावना अस्ति वा इति चेत् संशयः एव यतोहि तदानीमपि अपि वयं भेदभावं कुर्मः अयं भिन्नः माहं भिन्नः अहं भिन्ना अस्मि इति एवं रीत्या भेदभावं कुर्मः तर्हि अस्माकं मनः न वर्धितं तर्हि मनस् मनसः वर्धनार्थं साधना अवश्यम् अस्माभिः करणीया तत्र मनसः मनः सूक्ष्मातिसूक्ष्मं कदा भवति इति चेत् साधनाद्वारा एव परमपुरुषः अतिसूक्ष्मः अस्ति सूक्ष्मा अतिसूक्ष्मः अस्ति तर्हि तस्य तु दर्शनम् इन्द्रिय इन्द्रियद्वारा दर्शनं न शक्यते तस्य अनुभवः साक्षात्कारः तु मनसा एव जायते तर्हि तादृशमनः मनसः प्राधान्यं वर्तते मनः यथा कथञ्चित् भवतु नाम मम अस्ति अहं मम कृते एतत् बहु मुख्यम् अस्ति एतद् यद् बहिः यदस्ति तदेव मम कृते बहु बहु मनः कथञ्चित् गच्छतु मम कृते किम् इति कथा तथा कर्तुं न शक्नुमः यथा वयं व्यवहारं कुर्मः तथा एव अस्माकं मनः अपि भवति यदा तादृशमनः अस्ति तदानीं किं भवति इति चेत् मनसः पतनं भवति यदा पतनं भवति तदानीम् अग्रिमजन्मनि अस्माकं जन्म कथं भवति इति वयं स्वयं न जानीमः अग्रिमजन्मनि पाषाणखण्डरूपेण एव पाषाणखण्डरूपेण अपि वयं स्थातुं शक्नुमः यदा यदा तत्र रामायणे अस्ति खलु एका कथा आहल्या आहल्यायाः कथा अस्ति खलु तत्र यदा यदा कस्यचित् मनः तत्र मनसः अधोगमनं भवति तदानीं पाषाणखण्डरूपेण अपि आविर्भाव आविर्भावः भवितुमर्हति अग्रिमजन्म तथापि भवितुमर्हति अतः एतत् सर्वं मनसि निधाय अस्माकं व्यवहारः कथं भवेत् इति चेत् पाष पाशस्य विमोचनार्थम् अस्माभिः प्रयत्नः अवश्यं कार्यः यदा प्रयत्नं कुर्मः तदानीं तत्र विजयः अवश्यं जयः तु अवश्यम् अवश्यमेव जयः भवति तदानीं पाशैः मुक्ताः भवामः तदानीं वयं शिवः शिवाः शिवाः एव वयं भवामः वयं तु शिवः भवामः शिवः तत्र शिवः सत्यरूपः यः एकरूपः अस्ति सत्यं ज्ञानम् अनन्तं ब्रह्म ब्रह्म एव वयं भवामः आनन्दस्वरूपं वयं भवामः यतः अस्माभिः तत् कर्तुम् अस्माभिः अवश्यं यत्नः करणीयः तत्र पोस्पोन्मेण्ट् इति विषयः कदापि न भवेत् सर्वदा अस्माभिः कर इदानीमेव अस्माभिः करणीयं चिन्तितं तद् इदानीमेव अस्माभिः करणीयं करोमि अनन्तरं करोमि कालानन्तरं करोमि इति नास्ति अतः ये ये जनाः अत्र अपि च ये ध्वनिमुद्रणं शृण्वन्ति तेषां सर्वेषां निवा अत्र अस्माकं शिबिरः अस्ति दि, डिसेम्बर् मासे तत्र आगन्तुम् अवश्यम् अस्माभिः प्रयत्नः करणीयः यतोहि तत्र एव साधनायाः बोधः भवति तत्र अन्यत् सर्वम् आहारः एतत् सर्वं आहा वयं तत्र आन्लैन् माध्यमेन पाठयितुं शक्नुमः परन्तु साधना तत्र तत्रैव शिबिरे एव भवितुमर्हति यतोहि तत्र गुरोः पुरतः उपविश्य यः पाठयति तस्य पुरतः उपविश्य गुप्तरूपेण तत्र बोधः भवति इति कृत्वा तत्रैव भवितुमर्हति अतः भवन्तः सर्वे आगच्छन्तु इति उक्त्वा इदानीम् अस्माकं करपत्रं प्रति गच्छामः तर्हि अत्र अन्यत् एकं वक्तुम् अत्र किमस्ति इति चेत् यः साधकः अस्ति सः बहु बुद्धिमान् अस्ति इत्युक्ते ये ये जनाः बहु पठन्ति पण्डितरूपेण पण्डिताः भवन्ति बहु पठित्वा पठित्वा पठित्वा अधिकं पठन्ति ते बुद्धिमा बुद्धिमन्तः सन्ति वा अथवा यः साधकः वर्तते सः बुद्धिमान् अस्ति वा इति वयं पश्यामः चेत् यः साधकः अस्ति सः एव बुद्धिमान् अस्ति यतोहि तस्य भक्तिभावः अस्ति तस्य परमपुरुषं प्रति प्रीतिभावः अस्ति तर्हि किं भवति इति चेत् तस्य कृते परमपुरुषस्य बुद्धिः अपि आयाति अतः साधकः बहु बुद्धिमान् वर्तते इत्युक्ते यः साधकः इत्युक्ते यः साधनां करोति सः बुद्धिमान् वर्तते सः चतुरः वर्तते परन्तु यः पुरुषः साधनां न करोति तर्हि सः तु बुद्धिमान् नास्ति सः तु बुद्धिहीनः भवति किमर्थम् इति चेत् यतोहि सः चिन्तयति अहमेव सर्वं करोमि इति चिन्तयति खलु यः साधकः अस्ति सः चिन्तयति सर्वं परमपुरुषः एव करोति अहं तु तस्य यन्त्रः अस्मि इति सः चिन्तयति परन्तु यः साधकः नास्ति यः साधनां न करोति यः पण्डितः अस्ति सः चिन्तयति अहमेव सर्वं करोमि अहं मया एव सर्वं पठितमस्ति मम ज्ञानम् अस्ति इति तस्य अहङ्कारः अस्ति इति कृत्वा सः तु बुद्धिहीनः अस्ति बुद्धिहीनः अस्ति सः बुद्धिमान् कदापि न भवितुमर्हति अतः वयं सर्वे बुद्धिमन्तः भवितुम् इच्छामः तत् कथम् इति चेत् साधनाद्वारा अतः वयं साधकाः भवामः तदानीमेव अस्माकम् अग्रगतिः भवति भवन्तः सर्वे अत्र आगतवन्तः किमर्थम् आगतवन्तः भवत्सु कश्चन जिज्ञासा अस्ति एतत् सर्वं ज्ञातुं भवत्सु जिज्ञासा अस्ति परमपुरुषं ज्ञातुं भवत्सु जिज्ञासा वर्तते इति कृत्वा एव भवन्तः सर्वे अत्र आगतवन्तः खलु नो चेत् अन्यत् किमपि कर्तुं शक्नुवन्ति तथापि अत्र किमर्थम् आगतवन्तः यतोहि अधिकं ज्ञातुम् इच्छा अस्ति तत्र जीवने अस्य परिवर्तनम् आवश्यकमस्ति एतावता पशुजीवनं पालितम् इतः अग्रे मास्तु इति इच्छा अस्ति इति मुख्या अस्ति इति कृत्वा एव प्रति सप्ताहे भवन्तः अत्र आगच्छन्ति तर्हि अत्र आगच्छन्ति चेत् अत्र साधकाः भवितुम् इच्छा अस्ति साधकाः सन्ति भवन्तः अतः साधकाः सन्ति चेत् साधना अवश्यं करणीया साधना करणीया इति अवश्यम् अस्माभिः ज्ञातव्यं तदर्थं तत्र डिसेम्बर् मासे इति उक्त्वा अत्र करपत्रं प्रति गच्छामः कोपि वा okay. न भगिनि वा इदानीं दृश्यते वा दृश्यते आम इदानीम् दृश्यते अस्तु समीचीनं तर्हि अत्र अस्माकं विषयः अस्ति अयं संसारः कः इति विषयः अस्ति तर्हि अस्माभिः सृष्टिचक्रं कथं भवति इति अपि अस्माभिः दृष्टमासीत् तर्हि षड्वादने तत्र यदा अनुकूलवातावरणं भवति तदानीं भिन्नजीवानाम् आविर्भावः भवति दशवादने मनुष्यस्य मनुष्यस्य आविर्भावः भवति इति अस्माभिः तर्हि इदानीं तत्र मनुष्यजीवने तत्र अस्माकं स्वतन्त्र इच्छा वर्तते अतः वयं पशुजीवनस्य पालनं कर्तुं शक्नुमः अथवा परमपुरुषस्य प्राप्त्यर्थं यत्नमपि कर्तुं शक्नुमः तर्हि ये जनाः परमपुरुषस्य प्राप्त्यर्थं यत्नं कुर्वन्ति तेषाम् अग्रगतिः भवति तर्हि अग्रगतिः भवति इत्युक्ते किम् अत्र अन्ततो गत्वा लक्ष्यं किम् इति चेत् निर्गुणपुरुषस्य प्राप्तिः एव अस्माकं निर्गुणब्रह्मणः प्राप्तिः एव अस्माकं लक्ष्यमस्ति तर्हि तत्र सहायार्थं तत्र किम् कः साहाय्यं करोति इति चेत् तत्र सगुणब्रह्म एव सहायं करोति अस्माभिः अपि एवमपि उक्तं यत् तत्र निर्गुण ब्रह्मणः एव अस्माकं लक्ष्यं परन्तु वयं तु सर्वे तु सगुणभ्रमणः चित्ते स्मः सृष्टिः सृष्टिः तु सगुणब्रमण भ्रमणः चित्ते एव अस्ति तर्हि कथं वा निर्गुणभ्रमणः प्राप्तिः भवितुम् अर्हति यदा वयं तु सगुणब्रह्म निर्गुणब्रह्म तु सगुणब्रह्मणः बहिः वर्तते तर्हि कथं तस्य प्राप्तिः भवितुम् अर्हति इति प्रश्ने सति अस्माभिः उक्तं तत्र चेष्टा अस्माभिः चेष्टा करणीया साधनाद्वारा एव तत्र अस्माकं मुक्तिः भवितुम् अर्हति तर्हि यदा साधनां कुर्मः तदानीं प्रकृतेः बन्धैः वयं विमुक्ताः भवामः तदर्थं प्रथमतया किं ज्ञातव्यम् इति चेत् वयं बद्धाः इति अस्माभिः अवश्यं ज्ञातव्यं यदि बद्धः अहं बद्धः बद्धा अस्मि इति न जानामि तदानीं यत्नमपि न करोमि चेष्टामपि न करोमि साधनमपि न करोमि तर्हि प्रथमतया अस्माभिः ज्ञातव्यं यत् अहं वन्दने अस्मि इति ज्ञातव्यं यदा तस्य ज्ञानं भवति तादृशज्ञानं भवति तदानीं मुक्तेः आकाङ्क्षा भवति मुक्तेः आकाङ्क्षा इदानीम् अहं बन्धने अस्मि मम मुक्तिः अपेक्षिता वर्तते इति यदा जिज्ञासा भवति मुक्तेः मुक्तेः आकाङ्क्षा भवति तदानीं किं भवति इति चेत् परमपुरुषः स्वयम् आविर्भूतः भवति सः स्वयम् आविर्भूतः भवति अस्माकं मार्गदर्शनार्थं तत्र न संशयः परमपुरुषः स्वयम् आविर्भवति इत्यत्र न कोऽपि संशयः सः अवश्यमेव आविर्भूतः भूतः भवति यदा जिज्ञासा अस्ति आकाङ्क्षा अस्ति मुक्तेः आकाङ्क्षा अस्ति यदा अत्र अस्माकं मनसि विचारः आयाति ओ अहं बहु बहु बद्धः अस्मि इतः अग्रे एतादृशपशुजीवनं मास्तु इति अस्माकं मनसि जिज्ञासा जायते आकाङ्क्षा जायते तदानीं तत्र तदानीं परमपुरुषस्य दायित्वम् अस्ति स्वयं प्रकटयित्वा अस्माकं मार्गदर्शनं करणार्थं तर्हि सः कस्यचित् माध्यमेन आयाति सः आविर्भूतः भवति इति चे सः शिवः जटाधारी अस्माकं आगत्य सर्वम् सर्वं ददाति इति नास्ति तथा नास्ति इत्युक्ते तस्य यद्वयं चित्रे पश्यामः अत्र तत्र किं मूर्तिरूपेण पश्यामः स एव अस्माकं पुरतः आविर्भू मार्गदर्शनं करोति इति तथा नास्ति परन्तु सः एव कस्यचित् माध्यमेन केनचित् माध्यमेन सः एव आविर्भू भु, आविर्भूय अस्माकं मार्गदर्शनं करोति तर्हि सगुणब्रह्मणः तत्र सृष्टेः रहस्यं किं तत्र लीला इति चेत् तत्र प्रत्येकं जीवः प्रत्येकं जीवात्मा तत्र मुक्तिः प्रत्येकं जीवस्य मुक्तिः भवतु इति एव इच्छा अस्ति सगुणब्रह्मणः तादृश इच्छाम् आधारीकृत्य एव सगुणब्रह्मणा जगतः निर्माणं कृतमस्ति तर्हि तत्र मुक्तिः कथं भवितुम् अर्हति जीवात्मनः इति चेत् प्रत्येकं जीवात्मनः मुक्तिः मुक्तिः कथं भवितुमर्हति निर्गुणभ्रमणः प्राप्तिः कथं भवितुम् इति चेत् साधनाद्वारा एव साधना इत्युक्ते तत्र यदा वयं तत्र चेष्टा यदा तत्र चेष्टां कुर्मः तीव्ररीत्या चेष्टां कुर्मः तीव्र इच्छा अस्ति इदानीम् अस्माकं मनसि परमपुरुषस्य प्राप्त्यर्थं मनसि तीव्र इच्छा यदा भवति तदानीं मुक्ति आकाङ्क्षा अस्ति मुक्ति आकाङ्क्षा अस्ति चेत् तदानीं परमपुरुषः स्वयं प्रकटयति प्रकटयित्वा अस्माकं मार्गदर्शनं करो करोति येन वयं साधनां कर्तुं शक्नुमः शक्नुमः बन्धनात् मुक्तिमपि प्राप्तुं शक्नुमः तर्हि अत्र अत्र किमुक्तम् अन्ततो गत्वा इति चेत् यः अवगच्छति यत् अहं बन्धने अस्मि इति तदानीमेव मुक्तेः कृते सः मार्गदर्शनस्य अन्वेषणं करोति यदा अहं किं चिन्तयामि अहं पशुजीवने बहु अहं बहु सन्तुष्टा अस्मि पशुजीवनं बहु सम्यक् अस्ति अत्र यत् सुखं दुःखं लभ्यते तदेव मम कृते बहु सम्यक् अस्ति इति यः चिन्तयति सः तु मार्गस्य अन्वेषणं न करोति तत्र मुक्ति आकाङ्क्षा अपि तस्य नास्ति यतोहि तत्र तस्य स्वतन्त्र इच्छा कस्मिन् कस्यां दिशि अस्ति तस्य स्वतन्त्र इच्छा तु पशुमार्गे अस्ति पशुजीवने अस्ति इति कृत्वा तदेव सः करोति अतः तस्य कृते तु परमपुरुषस्य आविर्भावस्य आवश्यकता नास्ति यतोहि सः बन्धने अस्ति इति अपि न अवगच्छति यदा वयम् अवगच्छामः अहं बन्धने अस्मि इति यदावम अहम् अवगच्छामि तदानीम् अहं प्रयत्नं करोमि तत्र मुक्त्यार्थं मुक्त्यर्थं प्रयत्नं करोमि इति तावत्पर्यन्तम् अस्माभिः गतवर्गे प्राप्तमासीत् इत्युक्ते आत् आत्मानं प्रकृतेः मोचयितुं यः प्रयत्नः अस्ति स एव साधना इति वयं वदामः तर्हि इदानीं तग्रे अग्रे गच्छामः मम एकैक्षणं मम स्क्रीन् न दृश्यते एक तत्र किमपि जातम् क्षम्यताम् भवन्तः द्रष्टुं शक्नुवन्ति वा इदानीं ओके okay, अग्रे गच्छामः तर्हि इदानीं किं सरिता भगिनी पठितुमिच्छति वा सगुणब्रह्म hmm. सर्वेषां जीवात्मनां कृते निर्गुणावस्थां प्राप्तुम् इच्छति तदा तथापि सगुणब्रह्मणः लक्ष्यं तदैव साक्षात् कर्तुं शक्यते स्म यदा जीवात्मनः साधना अभ्यासं कृत्वा निर्गुणब्रह्म प्राप्नुवन्ति स्म साधना इत्यस्य अर्थः उत्कटप्रयत्नः अथवा तीव्र अभिलाषायुक्तः प्रयासः साधना मुक्त्यर्थम् इत्यक्तौ प्रकृतेः गुणसिद्धान्तानां बन्धनात् मुक्त्यर्थं गम्भीरप्रयत्नः ीव्रकाम्नया सह करणीयः प्रकृतेः बन्धनात् स्वं भोक्तुम् तीव्रभिलाषायुक्तः प्रयासः तदा एव परिणामम् दास्यति यदा जीवात्मा स्वस्य वशीभूतस्थाने जीवति तथा च प्रकृतेः गुणसिद्धान्तेषु स्वस्य बन्धनम् अवगच्छति यः स्वस्य बन्धनं पराधीनत्वं च न अवगच्छति तस्य मुक्तेः प्रश्नः न उद्भवति अतः मोक्षाय बन्धनस्य ज्ञानम् आवश्यकम् एतत् एव कश्चन स्वस्य मुक्त्यर्थं पद्धतेः अन्वेषणस्य आवश्यकतया आवश्यकताम् अनुभवति अत्र यदा यथा भवती उक्तवती तथैव निर्दिष्टमस्ति सगुणब्रह्मणा तु सर्वेषां जीवात्मानां कृते निर्गुण अवस्थां प्राप्तुमिच्छति किन्तु यदि मनुष्यः कृते एव एषः अवसरः भवितुम् यतोहि मनुष्यः एव स्वस्य बन्धनं ज्ञातुं शक्नोति मनुष्यः एव ए... अतः मुक्तेः मुक् मुक्त्यर्थं प्रयत्नं करो कुर्वन्ति अन्यजीवाः तु ते बन्धने बन्धने सन्ति इति एव न जानन्ति मनुष्यः एव यदा संसारात् दुःखम् अनुभवति तस् तेषाम् अहं बन्धने अस्मि किमपि कर्तुं न शक्नोमि सर्वदा आनन्दं प्राप्तुं न शक्नोमि किञ्चित् किञ्चित् एव आनन्द पुनः गच्छति संसारे दुःखमयमस्ति एवं न अनुभवति तस्य बन्धनम् अपि तदा एव सः प्रयत्नं कर्तुम् अपि न इच्छति यदा स्वस्य बन्धनात् तीव्रमुक्तिम् अभिलाष मनसि जागृति तदा एव सः साधना अर्थम् अन्ये अन्ये साधना किं भवति कथं करणीयम् इति अन्वेष्टुम् अग्रे गच्छति तदा एव सः परमपुर एव किंचितिथ आगच्छति साधना निर्देश कौती मनुष्याण एव यदा मनसि तीव्र अलाषा जागृति बदाव सह परमुषावुण ब्रह्मणूपेण सह परमुषाव आगछति किंचितिथ कि गुरूपेण अथवा अन्हाय कौती सह मनुष्य अभी यदा घोरप्रयत्नं करोति अपि च साहाय्येन अप लक्ष्यं प्राप्तुं शीघ्रं शीघ्रम् इति न किन्तु अभ्यासेन कृते शनैः शनैः लक्ष्यम् अवश्यं प्राप्नोति इति किन्तु सर्वर्थं तु मनसि अभिलाषा एव भवेत् इति प्रथमं स्तरं भवति कि अहं बन्धने अस्मि तस्य ज्ञानम् अपि च तस्य बन्धनात् मुक्ते इच्छा भवति तदैव अग्रे साधना सम्भवति सगुणपुरुषः तु सदैव साहाय्यं कर्तुं तत्परः अस्ति एव सम्यक्तया उक्तवती समीचीनं धन्यवादः अयं परिच्छेदः बहु बहु मुख्यः अस्ति अत्र विषयः उक्तः अस्ति इति चेत् सः विषयः कृते एव अस्ति यत् अत्र विषयः उक्तः अस्ति सः तु कृते अथवा पिपीलिकानां कृते नास्ति यतोहि ते तु न अवगन्तुं बन्धने अस् बन्धने सन्ति इति ते तु न एकः वृक्षः अस्ति सः तु कदापि न अवगन्तुं यत् सः बन्धने अस्ति इति तादृश अवगमनं तु केवलं मनुष्याणामेव एव भवति पशवः ये सन्ति पक्षिणः ये सन्ति ते केवलं स्वस्य जीवनं कर्तुमेव प्रयासं कुर्वन्ति तत्र एव सङ्घर्षः अस्ति तेषाम् इति कृत्वा तद्विहाय अन्यत्र तेषां मनः अपि न गच्छति तेषां मनः मनसि तादृशसामर्थ्यमपि नास्ति ते केवलं षड्वादनात् दशवादनपर्यन्तं गन्तुं तेषां सामर्थ्यं वर्तते तदर्थं ते सङ्घर्षं कुर्वन्ति यदा सङ्घर्षं कुर्वन्ति तेषां मनः वर्धितं भवति एतदनन्तरं तत्र अग्रिमजन्मनि तेषां तादृश अनुकूलशरीरमपि तेषां लभ्यते येन पुनः तेषां मनः वर्धते अग्रिमजन्मनि इतोपि वर्धितं शरीरं लभ्यते तेषां सङ्गर् तत्रैव भवति ते न अवगच्छन्ति यद् तेषां जीवनं वन्दने अस्ति इति एतत् सर्वं परन्तु मनुष्याणां कृते तथा नास्ति मनुष्याणां कृते तु तादृश अवसरः अस्ति तादृशसामर्थ्यम् अस्ति अतः यस्य कस्यापि मानवशरीरं वर्तते अपि च मनः वर्तते ते तु साधनां अवश्यं शक्नुवन्ति इत्युक्ते कोऽपि एवं न चिन्तयेत् यत् अहं तु न कर्तुं शक्नोमि ओ कर्तुं शक्नोति अथवा अन्य कर्तुं शक्नोति अहं तु न कर्तुं शक्नोमि इति तथा तादृशविचारः कदापि न यस्य कस्यापि शरीरं वर्तते यस्य कस्यापि मनः वर्तते ते अवश्यं साधनां कर्तुम् अवश्यं शक्नुवन्ति सगुणब्रह्म तु अस्माकं मार्गदर्शनार्थम् अवश्यमस्ति एव परमपुरुषः तु अस्ति एव खलु तर्हि परमपुरुषेण तादृश अवसरः केवलं मानवानां कृते एव दत्तः अस्माकं कृते तत्र स्वतन्त्र इच्छा वर्तते मानवधर्मस्य अनुस अस्माकं स्वतन्त्र इच्छा वर्तते परन्तु प पशूनां पक्षिणां तु तादृश अवसरः नास्ति आ, ते तु न जानन्ति यत् तेषां धर्मः अपि भिन्नः अस्ति तेषां धर्मः तु अनन्तेषणा इति धर्मः एव तेषां नास्ति अनन्तेषा एषणा इश, इति अवगमनमपि तेषां नास्ति अतः ते तु प्रकृतेः यादृश यादृश यादृशनियमनं कृतं तथा ते व्यवहरन्ति प्रकृतेः नियमन नियमानुसारं ते व्यवहरन्ति तर्हि तेषां तु अग्रगतेः अवसरः नास्ति परन्तु मनुष्याणां तथा नास्ति अस्माकं तु पशु पशुधर्मः अपि वर्तते मानवधर्मः अपि वर्तते अतः त अस्माकं तु यदा अनन्तेषणायाः इच्छा जागरिता भवति तदानीम् अग्रगतिः कथं भवति इति चेत् साधनाद्वारा अस्माकम् अग्रगतिः भवति यदा अस्माकं तीव्र अभिलाषः अस्ति तीव्र अभिलाषा अस्ति तीव्र तीव्र अस्ति अहं वन्दने अस्मि अहं वन्दने अस्मि अहं मुक्तिं प्राप्तुम् इच्छामि इति तीव्र अभिलाषः स्यात् तीव्र अभिलाषः कुत्र इति चेत् अहं अहम् अहं मुक्तिं प्राप्तुम् इच्छामि अहं बन्धने अस्मि अहं बन्धनात् मुक्तिं प्राप्तुम् इच्छामि इति तीव्र अभिलाषा यदा भवति तदानीं तत्र परमपुरुषः स्वयम् आविर्भवति अस्माकं मार्गदर्शनं कर्तुं तदानीं पद्धतेः अन्वेषणम् अपि भवति तदानीं अस्माकम् अग्रग गतिः भवति परन्तु यः पुरुषः पशुजीवने व्यस्तः अस्ति तं प्रति यदा वयं साधना साधनायाः विषये वदामः चेदपि तस्य इच्छा न भवति सः वदति मम इच्छा अत्र नास्ति मम अत्र उत्सुकता नास्ति अतः तस्य कृते अत्र यत्किमपि वदामः तदानीं तस्य इच्छा न भवति तस्य प्रयत्नः अपि तस्यां दिशि न भवति परन्तु यदा तत्र समयः उचितः अस्ति परमपुरुषस्य कृपा वर्तते तदा तदानीं तु मार्गदर्शनम् अपि अवश्यं लभ्यते तदानीं मार्गस्य अन्वेषणं वयम् अवश्यं कुर्मः तत्र मुक् मुक्तिः कथं लभ्यते अस्माकं मम मुक्तिमार्गः कः इति प्राप् तादृशमार्गं प्राप्तुम् अहं प्रयत्नं करोमि तस्य तस् तस्मिन् तस्याम् अवस्थायां अस्तु तर्हि इदानीम् अग्रे गच्छामः तर्हि किं पुष्प प्रिया भगिनी पठितुम् इच्छति वा जीवात्मनः मुक्तिप्राप्त्यर्थं वन्दनस्य ज्ञानम् प्रमखप्रयत्नः च उभयम् आवश्यकम् वर्तते जीवात्मनः सम्यक् मनसा विकसिताः भवेयुः येन ते स्वबन्धनस्य ज्ञानम् प्राप्नुयुः अस्मात् वन्दनात् मुक्तिम् प्राप्तुम् साधनानि अन्वेष्टुम् समर्थाः भवेयुः श्रुतितत्त्वे जीवात्मनः निर्जीवाः भवन्ति यदा ते अस्तित्वम् प्राप्नुवन्ति सः निर्जीवः जडः जीवात्मा प्रकृतेः अत्यन्तं प्रभावेः प्रभावे स्थितः सन् स्वस्य अस्तित्वम् ज्ञातुम् अपि असमर्थः अस्ति सः तस्य मुक्तिसाधनम् कदापि न प्राप्स्यति सुत्रम् सगुणब्रह्म सगुणब्रह्म स्वस्य प्रत्येकम् जीवात्मनः मोक्षम् लक्षीकरोति परन्तु जडस्य विषये सगुणब्रह्म सम्पूर्णतया मोक्षम साधयितुं न शक्नोति सो यदा पूर्वम् उक्तम् मानव जन्म साधनं करणे साधन जी, सर्वे जीवः बन्धः किन्तु ते न जानाति अहं बध्नामि अस्मि अहं बन्धने अस्मि इति अपि ते न जानन्ति जनाः न जानन्ति सो so, इदानीं यदा जीवात्मनः ज्ञानम् आगच्छति ओ हो भवतः अहं बन्ध अहं बन्धने अस्मि इति तस्मिन् तस्मिन् क्षणे एव तस्मात् कमा कथं मुक्तिं प्राप्तु प्राप्तुं कर् कुर्मः इति विषयमपि मनसि आगच्छति सो अतः किन्तु तत्र द्वयमपि आवश्यकता केवलं अहं वन्दने अस्मि इति ज्ञानं ज्ञानम् एव न किन्तु कथं प्रयत्नं करणीयं कथं तस्मात् बहिः आगन्तव्यम् इति क्रमशः किं करणीयं किं प्रयत्नं करणीयम् इति अपि ज्ञानं बहु आवश्यकम् अस्ति सो अतः तत्र सो अतः सो ये जनाः बन्धनात् बन्धनात् मुक्तिं प्राप्तु प्राप्तुं साधनां साधनानि अपि अन्वेष्यति अन्वेष्टुं समर्थाः सन्ति ते एव ते एव बहिः आगन्तुं शक्नोति प्रथमं बन्ध बन्धनस्य ज्ञानं द्वितीयं बन्धनस्य बहिः आगमनीयम् इति सङ्कल्पम् अनन्तरं साधनानि साधनानि अपि प्राप्तव्यं मुक्तिसाधनानि अपि प्राप्तव्यम् तत्र क्षितितत्त्वे जीवात्मः जीवात्मा जीवात्मा क्षितितत्त्वे एतत् क्षितितत्त्वे जीवात्मनः निर्जीवाः भवन्ति यदा ते अस्तित्वं प्राप्नुवन्ति तत् अहं सम्यक् रीत्या न अवगतं भवति एव न क्षितितत् क्षितितत्त्वे अपि क्षितितत्त्वे अपि परमात्मा वर्तते खलु परन्तु स क्षितितत्त्वं तु जडरूपेण तिष्ठति निर्जीवरूपेण तिष्ठति तत्र आत्मा नास्ति जीवात्मा नास्ति इति नास्ति क्षितितत्वे अपि परमपुरुषः सर्वत्र व्याप्तः वर्तते स्थितितत्वे अपि परमपुरुषः वर्तते इत्युक्ते तत्र सर्वं सर्वं खल्विदं ब्रह्म सर्वं जगत् ब्रह्म एव खलु तर्हि स्थितितत्वे अपि ब्रह्म वर्तते परन्तु इदानीं निर्जीवरूपेण तिष्ठति यतोहि यदा वयं यदा अहं स्थितितत्वं पश्यामि तत्र तु जीवस्य स्पन्दनं न दृश्यते खलु जीवस्पन्दनं न दृश्यते इदानीम् अवगत सो क्षितितत्त्व जडभूतेन ये क्षितितत् क्षितितत्त्वे जीवात्मनः निर्जीवा भवन्ति यदे ते अस्तित्वं ते अस्तित्वं प्राप्नुवन्ति यदा ते अस्तित्वं प्राप्नुवन्ति यदा ते जड् जड भूताः अस्ति तस्मिन् समये तत्र ब बन्धनं ते बन्धने सन्ति इति अपि बन्ध बन्धनस्य ज्ञानमपि न भवति तेषु जडभूतेषु सगुण अपि च कथं वन्दनात् बहिः आगन्तव्यमपि ते न जानाति एव सगुणब्रह्मणः सर्वस्य मुक्ति इच्छति मो मोक्षम् इच्छति किन्तु किन्तु एता एतानि जडभूतानि तु जडभूते एतानि जडभूतानि तु असमर्थाः एव भवति मोक्षविषये सवीचनं सवेचनम् इत्येव विषयः अस्ति सम्यक् अस्ति अत्र सृष्टिचक्रे सञ्चरधारायां तु द्वादशवादनात् षड्वा क्रमेण तत्र पुरुषः प्रकृतेः बन्धने आयाति प्रकृतेः गुणप्रभाव पुरुषः बन्धने आयाति एवमेव अत्र प्रतिसञ्चरे प्रतिसञ्चद् धारायां षड्वादनात् द्वादशवादनपर्यन्तं क्रमेण पुरुषः प्रकृतिबन्धनात् मुक्तः भवति क्रमेण मुक्तः भवति तर्हि अत्र अस्मिन् प्रतिसञ्चद् धारायाम् अस्यां धारायां तत्र केवलं तत्र दशवादने यदा मानवाः आविर्भूताः भवन्ति ते एव अवगन्तुं शक्नुवन्ति अहं वन्दने अस्मि इति ते एव अवगन्तुं पशवः अथवा अन्ये जीवा ये जीवाः अथवा क्षितितत्त्वं यद् पाषाणखण्डरूपेण अस्ति तत्तु शक्नोति यत् तत्र पाषाणखण्डः अहं वन्दने अस्मि इति तत्तु न शक्नोति तर्हि तत्र तु जीव जीवस्य स्फुरणमपि न दृश्यते पाषाणखण्डे परन्तु सर्वत्र ब्रह्म वर्तते परन्तु तादृश अवसरः अहं वन्दने अस्मि इति ज्ञातुम् अवसरः अपि च तत्र चेष्टां कर्तुं साधनां कर्तुं तत्र पद्धतेः अन्वेषणस्य अवसरः केवलं मनुष्यान् एव भवति अन्येषां जीवानां तादृश अवसरः नास्ति एव इति अत्र दत्तमस्ति अतः अत्र मानवजीवनम् अस्माकं कृते बहु सङ्घर्षेण लब्धम् अस्ति अतः तत्र समयस्य व्ययः न कर्तव्यः इदानीम् अवसरः लब्धः चेत् इदानीं साधनायाः अवसरः लब्धः चेत् तत्र अवश्यम् अस्माभिः तादृश अवसर अवसरस्य ग्रहणम् अस्माभिः अवश्यं कार्यम् अस्तु तर्हि इदानीम् अग्रे गच्छामः तर्हि सरला भगिनी अग्रे अतः सगुणभ्रमण स्व स्वसामर्थ्यानुसारं यावत् सम्भवम् तावत् जीवात्मनः प्रकृतिप्रभावात् मोचयति जीवात्मनः सृष्टेः अन्तिमावस्थायाम् सन्ति अतः एव मनुष्याणाम् चैतन्यम् स्पष्टतया प्रतिबिम्बितः वर्तते मनुष्येषु विस्तारः सम्पूर्णः नास्ति तथा च मनुष्याः प्रकृतेः गुणसिद्धान्तानाम् बन्धनात् सर्वथा मुक्तिम् प्राप्तुम् असमर्थाः भवन्ति किन्तु मनुष्येषु चैतन्यम् स्पष्टतया प्रतिबिबिम्बितम् भवति ते च स्वस्य वशीकरणम् साक्षात् कर्तुम् समर्थाः भवन्ति स्वमुक्तिप्राप्तये साधनाभ्यासार्थम् प्रयत्नम् कर्तुम् अनेन एव तैः सामर्थ्यम् अपि प्राप्यते साधनाम् कर्तुम् समर्थानाम् मनुष्याणाम् निर्माणस्य अभिप्रायेण एव सगुणभ्रमण प्रकृतिप्रभावे आगतम् एताम् सृष्टिम् निर्मातुम् अतः मनुष्याः केवलं साधनां कर्तुं मुक्तिं प्राप्तुं न निर्मिताः आसन् निर्मिताः आसन् न इति न निर्मिताः अतः मनुष्याः केवलं साधनां कर्तुं मुक्तिं प्राप्तुं च निर्मिताः आसन् यद्यपि मनुष्याः साधनार्थम् एव निर्मिताः तथापि ते तेषां मुक्त्यर्थं साधनां न कुर्वन्ति अतः एते परमपुरुषस्य इच्छाविरुद्धम् गच्छन्ति एते मनुष्याणाम् सृष्टेः प्रयोजनम् एव पराजयन्ति इदानीम् साधनायाः कः महा महात्यम् अस्ति इति दत्तमस्ति सगुणब्रह्मण वयम् जानीमः कल्पनायाः एव सृष्टि सृजति सृष्टेः सृजनं भवति सर्वे ये जीवाः सन्ति ते सगुणब्रह्मणस्य प्रभावेण एव आगताः सगुणब्रह्मणः ब्रह्मण ब्रह्मण प्रभावेन आगताः अपि इदानीं सगुणब्रह्म ब्रह्म इच्छति सर्वे जीवाः अपि तस्या प्रकृतेः प्रभावात् मुक्त भवेयुः भा, भा, किन्तु इति प्रत्येकजीवस्य मुक्ति भवेत् इति कदा इति न वक्तुं शक्नुमः प्रत्येकजीव यदि मनुष्यमानव जीवनं प्राप्नोति तदा हि एव सामर्थ्यं भवति मुक्तेः सामर्थ्यम् आगच्छति तद कथं मनुष्यस्य जीवने इति सामर्थ्यं भवति कारणकी मनुष्य एव अस्ति यस्मिन् चैतन्यप्रतिबिम्ब स्पष्टं भवति अनेक अन्य ये जीव जीवाः सन्ति तेषां प्रति चैतन्यस्य ते प्रतिबिम्बम् स्पष्टं नास्ति तु मनुष्य एव मनुष्यस्य मनसि एव आकाङ्क्षा आगच्छति मुक्तेः प्राप्तेः कृते किन्तु सर्वे मनुष्याः इति इत इत आकाङ्क्षा प्राप्नु प्राप्नु न, न, न प्राप्नुवन्ति यतो हि ते तेषामपि सामर्थ्यम् अस्ति स सा। प्र प्रत्येक मनुष्य इति सामर्थ्यमस्ति किन्तु अस्मा मनुष्यः पशु विकसितः भवति पशु पशु योनि योनि यो, अस्ति तस्मात् विकसितः अस्ति पशु स्वभावः अपि अस्ति मनुष्य आ, मनुष्ये तो किन्तु तत् स्वभाव यदि पूर्णतया अपगच्छति तथा एव मनुष्य मानव इति भवति यदि मानव भवति तदा एव तस्य मनसि आकाङ्क्षा आगच्छति चैतन्य परमात्मन चे चैतन्य स्पष्टम् अस्ति तत् तदा तत ता साधनां कर्तुं अग्रे आ, प्रगति करोति प्रथमं यथा पूर्वं परिछेदे पूर्वस्मिन् परिच्छेदे वयं पठितवन्तः प्रथमम् इति मनुष्ये इति ज्ञानं कि किं बन्दना, बन्धनं बन्धनं बन्धने अस्मि इति यदि बन्धने अस्मि इति ज्ञानं भवति तदा तदनन्तरम् इति आकाङ्क्षा आगच्छति बन्धनात् कथं <coughs> प्राप् प्राप्नोमि तदनन्तरं कथं प्राप्न प्राप्नोमि इति भवेत् इति आकाङ्क्षा भवति तत् सद्गुरोः वा ज्ञानस्य प्राप्ति तत् ज्ञानविनाश कथं करोमि तस्य इति सः प्रयत्नं करोति यदि तत् प्रयत्नं करोति तत् प्रयत्नम केवलम यथा वयम् इदानीं श्रवणं कुर्मः श्रवणात् एव ती मुक्ति साधना इति न भवति किन्तु तस्य व्यवहारे आन् आनेतुम् इति बहु आवश्यकमस्ति तत् तत् कृते यथा वयं जानीमः सात्विक आहार Uh, व्याम एक्ससैज् आसनानि व्यायामः व्यायामः व्यायामः अपि आसनानि अपि सेवाभाव इति सर्वे यदि कुर्मः तदा हि अस्माकं मनः शुद्ध भवति समस रजद्गुणः अस्मा मनसि आग पशुजीवनात् आगच्छति तस्य तस्मात् मुक्तिः भवति मनः शनैः शनैः यदि शुद्धं भवति सात्विकः भवति तदा एव यथा जलं जलात् मलम् अपगच्छति त जलं शुद, शुद्ध इति शुद्ध क्लियर् स्पष्टं शुद्ध प्रतीतिः भवति तस्य चन्द्रस्य चन्द्र चन्द्रस्य प्रतिबिम्बम् स्पष्टम् अस्ति तथैव मानुष मनुष्यस्य मनः अपि यदि इति अधोगुणाः सन्ति तमस् तमः कामक्रोधलोभ एव रजस एव तस्मा यदि विमुक्तिः भवति तदानीमेव यदि सत्य सात्विक गुण अधिकम अधिकम अधिकम् आगच्छति तद् तत् इति प्रभावेन मुक्तिः अपि प्रचलति साधना अपि दृढं भवति दृढसङ्कल्पः अपि बहु आवश्यकम् अस्ति अज्ञानम् अहम् अज्ञानम् अस्मि अहम अज्ञान तस्मात् बन्धना मुक् मुक्तिः इच्छति तस्मात् तदनन्तरं गुरोः प्राप्तिः सत्सङ्गप्राप्तिः अस्ति तदनन्तरं व्यवहारे इति एकमेकं सोपानम् अपि सर्वैः सोपानानि संयुक्त अपि कर्तुं शक्नुमः इति अस्ति अस्ति साधनापि अभवेत् सेवा अपि भवेत् अविद्याः ज्ञानमपि भवेत् ज्ञानं कथं के ते सर्वे सोपानानि यदि वयं तेषां प्रति प्रचलनं कुर्मः तदा हि एव मुक्तेः सफलता प्राप्तुं शक्नुमः सगुणभ्रह्म सदैव सिद्धा अस्ति अस्माकं मुक्तिप्राप्त प्राप्त्यर्थं किन्तु अस्माकम् अपि तत् तस् ब्रह्मण प्रति प्रगतिः भवेत् इति अस्माकमपि प्रयत्न अवि अति मुख्यमूल्यमस्ति प्रयोजनम् अस्माकं करणीयं तद् ब्रह्म ब्रह्मण अनुग्रह भवति समीचीनं भगिनि सम्यक् इत्येव विषयः अस्ति समीचीनम् अयं परिचयः बहु बहु मुख्यः वर्तते अत्र किम् अत्र प्रथमपरि प्रथमवाक्ये अत्र किं दत्तम् इति चेत् षड्वादनात् दशवादनपर्यन्तं किं भवति तत्र प्रतिसञ्चर्धारायां तदेव तत्र उक्तमस्ति तत्र अत्र ये ये जीवाः क्षितितत्वात् आरभ्य दशवादनपर्यन्तं प्राप्नुवन् प्राप्नुवन्ति दशवादनपर्यन्तं प्राप्नुवन्ति तत्र तेषां तत्र क्रमेण प्रकृतेः प्रभावः प्रभावात् तेषां विमोचनं क्रमेण भवति एव तेषामपि क्रमेण प्रकृते प्रभावात् विमोचनं भवति इति कृत्वा एव दशवादने यदा वयं मनुष्यरूपेण आविर्भवामः तदानीं तत्र किं भवति इति चेत् चैतन्यस्य सम्पूर्णरीत्या तत्र प्रतिबिम्बः भवति मनुष्येषु मनुष्येषु चैतन्यस्य सम्पूर्णतया सम्पूर्णतया प्रतिबिम्बः भवति तेषां मनसि इति कृत्वा तेषां तादृशसामर्थ्यं वर्तते अग्रगतिं प्राप्तुं सामर्थ्यं वर्तते इति कृत्वा तत्र दशवादनपर्यन्तं क्रमिकविकासः जायमानः अस्ति तत्र प्रकृतेः प्रभावात् मुक्तिः तु मुक्तिः तु जायमाना अस्ति एव तदर्थमेव दशवादने तादृशसामर्थ्यम् अस्मासु आयाति खलु तत्र चैतन्यस्य सम्पूर्णतया सम्पूर्णतया प्रतिबिम्बः दशवादने एव भवति तर्हि वयं किमवगन्तुं शक्नुमः इति चेत् प्रतिसञ्चधारायां क्रमेण विकासः जायमानः अस्ति अस्मिन् जगति यत्किमपि जायते तत् कार्यकारण अस्ति कार्यकारणभावयुक्तः अस्ति कार्यकारणभावं विना विना किमपि न जायते इत्युक्ते परमपुरुषः एव अन्ततो गत्वा कारणमस्ति परन्तु जगति यत्किमपि यस्य कस्यापि उत्पत्तिः नाशः भवति तस्य तु कार्यकारणभावः अस्ति कारणं विना कार्यं न जायते एव तर्हि अत्र सम्पूर्णविश्वः कार्यकारणभावसहितः अस्ति तर्हि अस्य कारणम् इदमस्ति अस्य कारणम् इदमस्ति अस्य कारणमिदमस्ति इति एवं वयं वक्तुं शक्नुमः इत्येवं रीत्या तत्र सम्पूर्णप्रक्रिया षड्वादनात् दशवादनपर्यन्तं सङ्घर्षेण सङ्घर्षेण अग्रे गच्छति त्रु क्लाश् एण्ड् कोहिशन् अग्रे गच्छति तदर्थं सङ्घर्षः अपेक्षितः तत्र य यः पाषाणखण्डः वर्तते तत्रापि सङ्घर्षः अस्ति पाषाणखण्डे अपि सङ्घर्षः अस्ति सङ्घर्षेण एव तत्र यदा अनुकूलवातावरणमस्ति तदानीं जीवस्य आविर्भावः भवति यदा सङ्घर्षः नास्ति चेत् तत्रापि न किमपि तत्रा न भवति तर्हि अस्मिन् जगति तत्र यत्किमपि अस्ति तेन तु सङ्घर्षः अवश्यं करणीयः एव सङ्घर्षेण किं भवति इति चेत् अग्रगतिः भवति इदानीं मानवजीवे अपि यदा सङ्घर्षं कुर्मः तदानीं किं भवति अग्रगतिः भवति सङ्घर्षं विना किमपि न भवति इदानीं सात्विक आहारः यदा वयं स्वीकुर्मः सात्विक आहारं तदानीं तत्रापि सङ्घर्षः आवश्यकः खलु आदौ तर्हि सङ्घर्षः अस्ति चेत् अग्रगतिः भवति सङ्घर्षः नास्ति चेत् किमपि न भवति तर्हि यदा तत्र पाषाणखण्डरूपेण वयं भवामः तदानीं सङ्घर्षः नास्ति चेत् तत्र पाषाणखण्डरूपेण एव वयं तिष्ठामः सङ्घर्षः अस्ति इति कृत्वा अग्रगतिः अस्ति सङ्घर्षः सङ्घर्षः सङ्घर्षः प्रत् प्रत्येकस्मिन् सोपाने सङ्घर्षः अस्ति अतः अस्मिन् जी अस्मिन् लोके जीवनार्थम् अवश्यं सङ्घर्षः अस्ति प्रतिसञ्चरधारायाम् अस्माकं सङ्घर्षे साहायं कर्तुं सत्त्वगुणः अपि अस्ति प्रकृतेः सत्त्वगुणः अपि अस्ति प्रकृतिः अस्माकं साहाय्यं करोति यतोहि प्रतिसञ्चरधारायां सत्त्वगुणस्य प्राधान्यं वर्तते इति कृत्वा अस्माकं सङ्घर्षे प्रकृतिः अपि सहायं करोति यदा सत्त्वगुणस्य दशवादने मनुष्यजीवं जीव, जीवं प्राप्नुमः अनन्तरं तत्र अस्माकं सत्त्वगुणः सत्त्वगुणस्य आधिक्यं यदा भवति तदानीं मनसः वर्धनमपि भवति तर्हि इति एवं रीत्या तत्र सङ्घर्षेण एव तत्र मनः अपि विकासितं शरीरमपि विकासितम् अस्ति तर्हि अस्मिन् अस्मिन् सृष्टिचक्रे अत्र कार्यकारणभावः सर्वत्र वर्तते प्रतिसञ्च धारायां सप्तगुणस्य प्राधान्यं वर्तते येन अग्रगतिः अस्माकं सुलभः भवति सङ्घर्षमाध्यमेन यदा भवति तदानीम् अस्माकं मनः अपि वर्धितम् अस्ति तदानीं तदनुकूलशरीरमपि लभ्यते इति कृत्वा दशवादने यदा मनुष्यजीवनं लभ्यते तदानीं चैतन्यस्य सम्पूर्णतया प्रतिबिम्बः वर्तते यथा अस्माभिः बहुवारं चर्चितं यदा तत्र तत्र भूमौ जलमस्ति तत्र मलिनाः न सन्ति चेत् तदानीं चन्द्रस्य प्रतिबिम्बः क कस्मिञ्चित् रात्रौ तत्र तत्र कस्याञ्चित् रात्रौ चन्द्रस्य प्रतिबिम्बः सम्पूर्णतया दृश्यते जले एवम् अस्माकं मनः शुद्धं भवति चेत् तदानीं चैतन्यस्य परमपुरुषस्य प्रतिबिम्बः सम्पूर्णतया दृश्यते दृश्यते तदर्थम् अस्माभिः किं करणीयम् इति चेत् मनसः शुद्धीकरणम् आवश्यकं तत् कथं कर्तुं शक्य शक्यते इति चेत् तत्तु साधनाद्वारा एव कर्तुं शक्नुमः परमपुरुषस्य अधः साधनां कुर्मः चेत् अस्माकं मनसि तादृशसामर्थ्यम् आयाति येन येन परमपुरुषस्य प्रतिबिम्बः सम्पूर्णतया तस्य प्रतिबिम्बः आयाति इति अत्र गतमस्ति तदर्थं साधनां कर्तुम् अस्माभिः किं करणीयम् इति चेत् पद्मासन पद्मासने उपविश्य नेत्रं निमील्य वयम् अन्त अन्तः गच्छामः साधनायाम् अस्माकं यः अहं भावः अस्ति तस्य परमपुरुषस्य परमपुरुषस्य तत्र अहम् अहं भावेन तस्य लीनं भवति तदानीं तत्र किं भवति इति चेत् तत्र अन्ततो गत्वा जीवात्मनः परमात्मनः ऐक्यम् अपि सम्भवति एतादृश अवसरः सृष्टिचक्रे केवलं मनुष्याणाम् एव भवति तदर्थं तत्र एतत् सर्वम् अस् परमपुरुषस्य लीला अस्ति सृष्टिचक्रे तत्र प्रतिसञ्चर्धारायां परमपुरुषः स्वस्य इच्छया प्रकृतेः प्रभावात् क्रमेण मुक्तः भवति दशवादने इतोपि मुक्तिं प्राप्तुं निर्गुणब्रह्मणि ऐक्यं प्राप्तुं तत्र क्रमिक क्रमिकरूपेण अस्माभिः चेष्टा करणीया तत्तु साधनाद्वारा क्रियते अन्तः अस्माभिः अन्तः अं, गच्छामः तदर्थमेव अस्माकं जन्म अभवत् खलु तत्र मनुष्यरूपेण जन्म किमर्थम् अभवत् तस्य लक्ष्यं किम् इत्युक्ते धनसम्पादनं लक्ष्यं नास्ति अथवा अन्यत् किमपि लौकिकवस्तु लौकिकवस्तु लो, प्राप्तव्यम् इति अस्माकं लक्ष्यं नास्ति अस्माकम् अन्ततो गत्वा सृष्टिचक्रे किमर्थं परमपुरुषः अस्माकं कृते एतादृश अवसरः दत्तः मनुष्यरूपेण इति चेत् अग्रगतिं प्राप्तुमेव तेन अस्माकं परमपुरुषेण ऐक्यं भवति तदेव अस्ति सृष्टेः लक्ष्यं तदेव लक्ष्यमस्ति न तु जीवने न तु जीवने तत्र मनुष्यजीवनं प्राप्य केवलं लौकिकवस्तूनां चिन्तनमेव कुर्मः चेत् तदानीम् अस्माकं मनसः अधो गमनं भवति पतनं भवति पतनं भवति चेत् तत्र अग्रिमजन्मनि कीदृशजन्म भवति इति वयं स्वयं जानी न जानीमः अस्माकं परमपुरुषेण सह कथम् अस्माकं आ... कीदृशसम्बन्धः अस्ति इति चेत् अहं छात्रः अस्मि परमपुरुषः मम गुरुः अस्ति इति एतादृशसम्बन्धः अथवा अहं यथा द्वयोः एक एकः पुरुषः महिला अनयोः यादृशप्रीतिभावः अस्ति तादृशप्रीतिभावः परमपुरुषस्य अपि च अस्माकं कृते अस्ति इति कृत्वा एव व वयं किं ये सन्ति तेषां राधा इत्यपि नाम अस्ति राधा इत्युक्ते काचित् महिला इति नास्ति राधा इत्युक्ते ये भक्ताः सन्ति तेषामेव नाम अस्ति राधा राधिका इत्युक्ते परमपुरुषस्य ये भक्ताः सन्ति तेषां तादृशप्रीतिभावः अस्ति परमपुरुषं प्रति इति कृत्वा परमपुरुषः कृष्णः अस्ति वयं सर्वे राधाः स्मः यतोहि अस्माकं परमपुरुषं प्रति तादृशगाढरीत्या प्रीतिभावः अस्ति इति कृत्वा यदा तादृशप्रीतिभावः अस्ति तदानीं परमपुरुषस्य कृपावृष्टिः अस्माकं कृते भवति परमपुरुषस्य कृपा अस्माकं कृते कदा न भवति यदा वयं चिन्तयामः अहं सर्वं जानामि अहं सर्वं करोमि इति अस्माकम् अहङ्कारभावः भवति तदानीं परमपुरुषस्य वृष्टिः अस्माकम् उपरि न पतति परमपुरुषस्य वृष्टिः सर्वत्र पतति परन्तु अस्माकमुपरि परमपुरुषस्य वृष्टिः कदा पतति यदा वयम् एकं छत्रं गृह्णीमः किमर्थं कीदृशछत्रम् इति चेत् अत्र अहङ्काररूपचत्रं गृह्णीमः अम्ब्रला गृह्णीमः द एन् अम्ब्रला आफ़् ईगो वेन् वि होल्ड् दट् अम्ब्रला आफ़् ईगो तदानीं परमपुरुषस्य वृष्टिः अस्माकमुपरि न पतति यतोहि वयं चिन्तयामः ओ अहं सर्वं जानामि इति वयं चिन्तयामः मम कृते कस्यचित् सहायस्य आवश्यकता नास्ति इति चिन्तयामः तदानीं परमपुरुषस्य वृष्टिः न पतति अस्माकम् उपरि परन्तु यदा वयं किं कुर्मः यदा वयं चिन्तयामः मम अहङ्कारः किमपि नास्ति अहं किमपि नास्मि सर्वं परमपुरुषः एव सर्वं सः एव करोति अहं तस्य यन्त्रः अस्मि इति वयं चिन्तयामः तदानीं किं कुर्मः तदानीं किं भवति इति चेत् परमपुरुष् पुरुषस्य वृष्टिः कृपावृष्टिः उपरि भवति तदानीम् अग्रगतिः तु अवश्यमेव तत्र संशयः एव नास्ति संशयः नास्ति यदा अस्माकं वर्धनं ना भवति मनसः वर्धनं न भवति तदानीं तु अधोगतिः एव भवति मनः सर्वदा उपरि गच्छति अथवा अधोभागे गच्छति अधोगमनं भवति चेत् तदानीम् अग्रिमजन्मनि कीदृशशरीरं लभ्यते इति न जानीमः न जानीमः तर्हि अस्माकं यदा मरणं जायते तस्मिन् क्षणे वयं किं चिन्तयामः इत्युक्ते लौकिकवस्तु वस्तु चिन्तयामः चेत् अग्रिम अग्रिमजन्मनि तदेव वयं भवामः इदानीं तत्र धनस्य विषये चिन्तनं कुर्मः चेत् अग्रिमजन्मनि त धनरूपेण एव अस्माकम् आविर्भावः भवति यदा मरणसमये परमपुरुषस्य चिन्तनं कुर्मः चेत् तदानीं तत्र परमपुरुषरूपेण वयम् आविर्भाव परमपुरुषम् एव वयं भवामः अतः तत्र मरणसमये अस्माकं कीदृशचिन्तनम् इति चेत् इदानीं वयं किं चिन्तयामः पुनः पुनः पुनः पुनः परमपुरुषस्य चिन्तनं कुर्मः चेत् तदानीम् अन्तिमक्षणे अपि तस्य चिन्तनम् आयाति मनसि नो चेत् तत्र किं भवति अग्रिमजन्मनि अस्माकं जन्म कथं भवति तत्र पाषाणखण्डरूपेण अपि भवितुमर्हति यदा मनसः अधोगमनम् अधिकं भवति तदानीम् अग्रिमजन्मनि क जन्म कथं भवति इति वयं न जानीमः पाषाणखण्डरूपेण वा भवतु अथवा पशुः भवतु पक्षि भवति यत् किमपि भवितुमर्हति पुनः अस्माकं मानवरूपेण जन्म कदा भवति इति वयं स्वयं न जानीमः कति कति वर्षाः भवन्ति इति कोऽपि न जानाति तत्र केवलं प्रकृतिः पुरुषः एव जानाति इति कृत्वा अत्र यदा अस्माकं मनुष्यजन्म लब्धः अस्ति लब्धमस्ति तर्हि तस्य प्रयोगः अवश्यम् अस्माभिः करणीया अस्माकं साधना करणीया अग्रगतिम् अस्माभिः अवश्यम् अग्रगतिः प्राप्तव्या इति अत्र अस्मिन् परिचय अस्ति तर्हि अत्र कोऽपि संशयः अस्ति वा नो चेत् अत्र स्थगनं कुर्मः अद्य भगिनि uh, hmm. जीव केवलं यदि जन्तु पक्षिण पशव मानव इति शिलाखण्ड वा वनस्पति यत् अस्ति तत् जीव अपि न no, तत्तु जीवः इति न वदामः तत्र तु जीवात्मा अस्ति तत्र जीव इन् द पोटेन्शियल् फार्म् जीवात्मा अस्ति तत्र रैट् ah. right? जीवात्मा तत्र अस्ति परन्तु इट् इस् इन् द पोटेन्शियल् फार्म् तस्य आविर्भावः न जातः परन्तु तत्रापि चैतन्यं वर्तते चैतन्य तत्र पाषाणखण्डे अपि जीवात्मा वर्तते परन्तु इन् द पोटेन्शियल् सुप्तरूपेण वर्तते सुप्तरूपेण सामान्यतः जीव इति उपयोगं कुर्मः तत् युक्ति पशव पक्षिणः सत्यं सत्यं तत् जीवः इति वयं वदामः चेत् केवलं पशु पक्षिणः सत्यानि एतानि एव एतेव जीवः चरचर इति यथा वयं जङ्गमं जङ्गमं यत् भवति तत् जीव तदेव जीवः आमामस् सत्यं परन्तु तत्तु सत्यं परन्तु पाषाणखण्डः तु पाषाणखण्डः पाषाणखण्डः जीवः इति न वदामः इति न व्यवहरामः परन्तु पाषाणखण्डे जीवात्मा तु अस्ति सुप्तरूपेण uh -huh. अस्तु अस्तु धन्यवादः भगिनि धन्यवादः अद्य स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादाः भगिनि धन्यवादः नमस्कारः